श्रीहरये नमः अथ षष्ठोऽध्यायः सूत उवाच एवं निसंयभगवान् देवैर्षेर्जन्मकर्म च भूयः पप्रश्च तं ब्रह्मन् व्यासः सत्यवतीसुतः व्यासौ वाच भिक्षुभिर्विप्रवसिते विज्ञानात् एष्टृपिस्तव वर्धमानो वयस्याध्ये ततः किमगरोद्भवान् स्वायम्भुबकयावृत्या वर्तितं ते परं वयः कथं चेत्तमुदस्राक्षि काले प्राप्ते कले वरं प्राकल्पविषयां येतां स्मृतिं ते सुरसत्तमा न एष सर्वनिराकृतिः नारदौ उवाच भिक्षुभिर्विप्रवसिते विज्ञानात् येष्टृभिर्ममा वर्तमानो वयस्यात्येतत एतत् अकारशम् एकात्मजो मे जननी यो चिन्मूढा च किङ्करी मय्यात्मजे अन्नयगतौ चक्रे स्नेहानुबन्धनं सा स्वतन्त्रा न कल्पासीत् योगक्षेमं ममेच्छति ईशस्य हिव से लोको योक्षाधारुमयी यथा अहं च तत् ब्रह्मकुले ऊषीवांस्तदैवेशयां दिग्देशकालाव्युद्बन्नो बालकपञ्चहायनः ये निर्गधां गेहात् दुहन्तीं निशिघां पतिं सर्वोपधसद्भथा काल तदा तदहमीषश्च भक्तानां अनुग्रहं मन्यमानः प्रादिष्टं दिशमुत्तर पीता जनपदांस्तत्र पुरग्राम प्रजाकरान् केटकर्वटवाटीश्च वनान्युपवनानि चित्रधातु विचित्राद्रीन् इभ भग्नभुजत्रुमान् जलाशयान् जीव जलान्न सेविताः चित्रस्व नैस्पत्र रथैर्विभ्रमभ्रमरश्रियः नळवेणुसरस्तम्भ कुशकीचकगह्वरम् एक एवाति यातोः मद्राक्षं प्रतिभयाकारं व्यालोलोकशिवाजिरं परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षितः स्नात्वा पीत्वा हृते नद्या उपस्पृश् विप्लोपस्त आस्थितः आत्मानात्मानम् आत्मस्थं ध्यायत ध्यायतशरणाम्भोजं भोजं औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे स नैर्हरिहे प्रेमादिपरनिर्भिन्नपुलं गोतिनिर्वृतः आनन्दसंप्लवे लीनो नापश्यमुभयं मुने रूपं भगवतो यत्तन्मनः कान्तम् सुशाभहम् अपस्यं सहसोत्तस्ते वैलव्या धुर्म तितृक्षुस्तदहं भूय प्रणीधाय मनोहृते वीक्षमाणो विना पश्यम् अवितृप्तयि एवं यतन्तं विजने मामा गोचरो गिरां गम्भीरस्लक्षणया वाच सुषः प्रसमयन्निव हन्तास्मि जन्मनि भवान् मा अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनां सकृ यद्दर्शितं रूपमेतत् कामाय तेन गा मत्कामत्सनखैः मुञ्चति गृह्यचान् सत्सेवया दीर्घया ते जाता मयि दृढा मतिः हि त्वावत्यमिमं लोकं गन्ता मज्जनतामसे मतिर्मयि निभधेयं न विभत्येतः कर्हिचित् प्रजासर्गनिरोधेभि संवृद्धिश्च मदनुग्रहात् हे वा दुक्त्वा Na bholingam malingam eeshvaram अहं च तस्मै मकथां महीयसे सेष्णावरामं विदधेनुकम्पितः नामान्यनत्तस्य कतत्रभः पठन् गुह्यानि भद्राणि घृतानि च स्मरन् गा पर्यटन्स्तुष्टमनागतस्पृहाः कालं प्रतीक्षन् विमतो विमत्सुरः एवं कृष्णमतेर्भ्र ्यामलात्मनः कालः प्रादुरभूत्काले धित्सौधामनी यथा प्रयुज्यमाने मयितां तनुम् आरब्धकर्मनिर्वाणो न्यपतत्पाञ्चभौतिकः कल्पान्तयितमाधाय स यानेभस्त्युधन्वतः सिषयिषो अनुप्राणं विविशेन्दरहं विभोः ृषतः मरीचिमिस्रा ऋषयः प्राणेभ्योऽहं च जज्ञिरे अन्तर्बगित्स लोकान् स्त्रीन् पर्यें यस्कन्धितव्रतः अनुग्रहान् महाविष्णोरविगाधगतिः क्वचित् देवदत्तामिमावीणां स्वरब्रह्मविभूषितां मूर्छयित्वा हरिकथां गायमानश्रयां यहम् प्रघायतस्व वीर्याणि तीर्थभातः प्रियस्वरवाम् आहूतैव मे शीघ्रं दर्शनं याति चेतसीं ये दध्यातुरचित्ताना मात्रास्पर्शेश्चयामुहुः भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनं यमादिभिर्लोकपथैर्कामलोपहधोमुहुः मुकुन्तसेवया यद्वत् तथा आत्मद्ध सादम् आख्यातम् यत्पृष्टोऽहम् त्वया नघ जन्मकर्मरहस्यं मे सूत उवाच एवं सम्भाष्य भगवान्नारदो वासवीसुतम् आमन्द्रवीणां रणयन् ययो यात्रुचिको मुनिः अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्गधन्वनः गायन् माद्यन् यथं तन्द्र्या रमयत्यातुरम् जगत् इति श्रीमद्भागवमहापुराणे प्रथमस्कन्ते व्यासनारतसंवादे षष्ठोऽध्यायः सर्वत्र गोपिका जीवरस्मरणं गोविन्दा गोविन्दा सद्गुरु सद्गुरुमहाराजिकी जय